अथाष्टमम् काण्डम् ओ अन्तयमृत्यमः प्राणापादिहेन्ता यायमस्तोर्यस्य भागे अमृतस्य लोके उदयम् भृगो अग्रभे सुमान देवा उदयनम् मरुतो देवावलिन्दाग्ने संस्कृतेः इहते सूर्यः प्राणयिगायोगदेवनाः उक्त्वा निरत्यात्पादेभ्यो दैवाचाभरामसि उद्रामातः पुरुषमावपत्थावृत्याः पड्विम् शवमुञ्चमानः च्छित्थास्माल्लोकादग्ने सूर्यस्य नन्द्रहा तुभ्यम् मातः पवताम् मादरिष्मा तुभ्यम् वर्णम् मा वृता न्याप सूर्यस्तेतम् वेदम् सूर्यस्ते मृत्युर्दयताम् मा प्रवेष्ठा उद्यानम् दे पुरुषनावयानम् जीवातुम् दे दक्षयताम् आहिरो हेमम् सुगमसमर्विर्विध मा वदासि मा देवनस्तत्र गान्मातिरोभून्मादित्र विश्वे देवाभिलक्षन्तु त्वे हा मागदानामाधीधीयन्ति परावतम् आरोहतो ज्योतिरे हस्तो रमामहे श्यामश्च त्वामा शबरश्च प्रेषीतो यमस्य लक्षी स्वानो अर्वाण्ये हिमाविनीद्योमात्रनिष्ठामराः वैतम्बन्ध मनोगाभीमने शले नवोर्वम् मेलशरम्ब्रवी रमाय तत्पूर्णमा प्रवक्ता भयम् वरस्तासु भजन्ते अर्वाक रक्षन् तत्त्वाग्नयो अप्स्वान्ता रक्षतुमनुष्यायमिन्दते वैश्वानदो रक्षतु जादवे दादिव्यस्त्वामात्मरा विद्युदासः मात्वा क्रव्यादभिमंस्तारात्सङ्गसुखाश्च रक्षदत्वाद्यौ रक्षतु पथिवी गोर्यश्चत्वा रक्षताम् सम्रमाश्च अन्तरिक्षम् रक्षतु देवहेत्याः बोधश्चत्वाप्रतिबोधश्च रक्षता वसुभश्च त्वावत्राणश्च रक्षताम् गोपायंश्च त्वा जाग्रेणीश्च रक्षताम् ते त्वा रक्षन्तु ते त्वा गोपायन्तु तेभ्यो नमस्तेभ्य स्वाहा जीवेभ्यस्त्वा समुदे वाजेन्द्रो धाताजधातुमाणः मा त्वा काणो बलम् भासेदुम् तेन मा उद्वादित्यावसर्वभरन्तोऽयिङ्गाज्ञे सप्तये भूत्वाज्ञोरुत्प्रेतिम् यत् प्रजापरिरग्रहीत उर्वा मृत्यो रोषदस्वराज्ञीरवीवरन् अयम् देहे वा हैवास्त्वयम् मामत्र गाधितः इमम् सहस्रवीरेण मृत्योरुत्वारयावसे उक्त्वा मृत्योरवीवरम् सन्धर्मम् तवयोधरात्वा व्यर्थके सो मात्वा गर्वोरुदन् आशमवेदम् त्वा पुनः पुनरन्नवः सर्वाम् गर्वम् ते चक्षुः सर्वते विधम् देवात्ते ज्योतिरोदपतमो आक्रमीत् क्तम् मृत्यु नरतिमवलक्ष्मम् निदध्वति आरभस्वेमामृतरस्य सृष्टिमच्छिन्द्यमाना जललक्ष्रस्तुते असन् राजः पुरराभराभिरजस्तवोपगापाकमे जीलराम् ज्योतिरभ्ये स्यर्वाङ्गात्वाय अवाञ्चम् मृत्युपाजादहस्तिम् राघीजायःप्रतहरम् ते दधावि वादात्ते प्राणमाविदंसोर्या चक्षुरहन्तव वा। यत्ते महस्तयाविधम् वृत्ताञ्जर्मदारम् दे प्राणे रत्तात् विपदाम् चतुष्पदामग्निमीवजातमभिधम् भवामि नमस्ते मृत्यो चक्षुषे नमः प्राणायतेरम् अयम् जीहीवल्मावृतेमम् समारजावधि किणोन्यस्मै भेदजम् मृत्यो मा पुरुषम् वधीः जीवलाम् न घार्षाम् जीहीवन्ती मोषधीमाम् त्रारमाणाम् सहमानाम् सहस्वतीभुवे स्मा इष्टदातरे अधिब्रूहिवारभसा श्रुतेमम् वेवलम् सर्वहादानिस्तो भवा सर्वो मृणतम् शर्म यच्छदव्यादृशम्भट्टमायोः अक्ष्मे वृत्यो अभिप्रेहीमम् दशोऽधीतोऽयमेत अनृष्टः सर्वाङ्गः सुष्ठुञ्जर सदायन आत्मन अभुजमस्तुता देवानाम् भेदः परत्वारुणत्वयाः वित्त्वारजसमुत्त्वाः मृत्योरभेदाम् आहारज्ञम् कव्यारम् निरोहमम् जीवात वेते परिहारिजानम् प्रजातम् मृत्योः अनवरश्यम् परयम् दस्माद्रक्षम् तो ब्रह्मास्ते वर्म कण्वसि कृणोमी ते वैवस्पतेन प्रहीतान्यमदूतारतोपसेधापि सर्वाः आराधातिम् निर्देतिम् परोग्राहि रक्षो यत् सर्वम् दुर्भूतम् दत्तमशिवापरहंवती अग्रेष्टे प्राणमुयुष्मतो यथा नरिष्या अमृतः सजोरस्तर्ते गणोऽभिर शिवेदे सा न्यामा पृथिवी सन्तापे अभिश्रियो सन्तेहोर्यात वसुसंवातो वातु ते हृदे शिवाभिरचारम् तत् पापो दिव्या शिवास्ते सन्तोषयमुत्त्वा गणभरस्यामुत्तराम् पृथिवीमपि तत्रत्वा नित्यो रक्षणाम् सौर्याचम् गणवताः भुभा यत्तेवासः परिधानम् यान्ेवम् कुरे तम् शिवन्ते सन्वे तत्र संस्परिशेद्ररोक्षणमस्त्व यक्षुरेण मञ्जनता सुतेपधिकेशस्पर्श शुभम् मुखम् मानहाय प्रमो हे योगे येतो वधौ एतौ यक्ष्मम् विवाहधेनेतौ चदः यदस्नादियक्तिपदिधान्यम् कृष्या पयः यदनाद्यं सर्वम् ते अन्नमभिषम् करोमि अह्ने चत्वारात्र ये चोभाभ्याम् परिदद्मति पराणेभ्यजगत्सुभ्य इमम् मे परिरक्षत क्षतम् ते युगम् भाजनान् वे युगे चत्वारि कर्म इन्द्राग्नी देवास्तेनो मन्यम् तामरेणीयमानाः शरदेताय मन्ताय वसन्ताय ग्रीष्माय परे तद्वधि पर्षाणि लभ्यम् श्यानानि ये समर्थम् नवोषधीः मृत्युनीजे द्विपदाम् मृत्युनीजे चतुष्वरा कस्मात्मा मृत्योर्गोपदेरुद्भराभिसमाभिः सोऽष्टनवरिष्टसि नवरिष्टसिमाभिः न वेदत्र म्रियन्ते नोयम् यथा मन्तः सर्वो वेतत्र जीवदयोरः स्वः पुरोषः पहित्वा पादुसमानेभ्यो विहारात्सवम्भ्यः अमामिण्भवामृतो जीवोपाते हासिरीरम् ये नृत्यवरे कानाष्टादितार्याः चम् पुतः स्वात्ताम् देवाग्नेर्वैश्वानलादति अग्ने शरीरमतिपारयिष्णुरक्षो हा शीरवत्नः मीतरम् नाम भेषजम् रक्षोहणम् वाचिदमादीघम् निमित्तम् वसिष्ठमुपायामि शर्मा शिदानो अग्निक्रतोभिस्वमिन्द्रः नो दिवासनिज पानुरक्तम् अयोदम् अद्यजातुपस्पृशजातवेदः समिद्धः आदिवजाभू देवान्वभस्पः कल्यादो विष्वापि धत्स्वासन् उभोभरयामिन्नुपदेहिताम् हिंसस्य शादोपरम् परम् च उग्रान्तरिक्षे वैराग्ने जम्भैः सन्धेः ज्ञातु अग्ने त्वजम् यादुधानस्य बिन्धिशंसानिर्हरसाहन्तनम् प्रपर्वाहाणि जातवेदश्रीः कव्याक्रविष्णुर्विचेनामत्वेन यत्रेदानीम् पश्यति जातवेदश्चिष्ठम् तमग्न उत वाचरम् तम् उदान्तरिक्षेपदम् तम् यातुदानम् तमस्ताः विद्ध्यशर्वाधिकार यज्ञैनिशोः सन्नवामानोऽग्ने वाचाशल्या अदरे काह विद्यहृदये जातुम् प्रतीतो बाहोन् प्रतीभञ्जेता उदारब्धाम् स्फुणिभि जातवेद उतारे वाणाम् दृष्ट्यभिरजातु धाना अग्ने पूर्वो निजहिशो शोचान आमालक्ष्कास्तमवदन्ते समारभस्वसमिधाः रविष्टरचक्षरश्चक्षोषष्टेराग्ने चक्षोषारक्षरिम् वसुभ्यः प्रणायः प्रचेदः हिंसं रक्षांसविरोनम् मात्रा समञ्जातुः विचक्षारक्षः परे पश्यभिक्षुतस्तत्रेण तस्याग्ने पृष्टेरहरसात्रेधामूलम् यातुधानश्च वृष्ट्यानप्रसीदिन्तरे द्वितैव अग्ने अनृते न हन्ति तमर्जिका स्मोर्जयम् यातवेदः समक्षमे न गृहरे निजन्धि यदग्ने अद्य मेधुदाशवातो यदाच श्रम् गणयन्तरे वा अन्यान्मनदशरव्यादयाः विद्यते जातुधारा पराः शृणे हितपदाजातुरक्षो हरदाः पराच्यमोरदेवाङ्णिः पराः सुदृपसोऽशुचदर्शिणीः पराच्यदेवावेजिनम् श्रेणन्तु तर्यगे नं शपथायम् तु सृष्टाः पाचास्तेनम् शरवगच्छन्तु मर्मन्विश्वस्ते तु प्रसीदी यादुधानाः यत्पौरोषेणो या वैश्वेन पशुरा यादुधानाः यो आज्ञाया भीरमग्ने तेषाम् शेषाणि हरे सापी वृष्टा विषङ्गाः यादुधानाः परम् तामावृष्टम् विदाद वरेणाम् देवस्तविदधातुपराः भागवोषधीनाम् जयन्ता संवत्सरीरम् वय उस्त्रियास्तस्य मासीद्यादुधारो रजक्षः पीजोषमग्ने च मश्चात्तम् प्रत्यन्तमझिलाध्य मम सनादग्ने मृणसि जातुधारान्नत्वा रक्षाहंसेतनाथरिद्यो सहं गोरानरोदहक्रम् जातो माते हेत्यामुक्षत नैव्याग्ने अधरादो रक्तस्त्वम् पश्चादुदक्षा पुरस्तात् प्रतिच्चेरे अजराहस्तपिष्टा रजम् संशोषु जतोदहम्बो पश्चात्पुरस्तादधरादृतोत्तरा कविः काव्येण भैवार्यग्ने सदा सखायमजलोयम्ने अग्नेमर्तामर्जस्पन्नाः तदन्ने चक्षप्रतीधेहिले भेषपादुजोरे नवशेनादुधानाः असर्वज्योतिषादैर्ये सत्यम् भूर्वम् तमहितम् न्योढ परित्वाग्ने पुरम् भयम् विप्रम् दहस्य जीविने बृहद्वर्णम् निवेदी वेदम् तारम् भङ्गुरावतः बृहेण भङ्गुरावतः प्रति स्म रक्षतो अग्नेति शोचिशातपूरग्राविरर्जिभिः विद्योतिरागराभागिराविर्विश्वारिदेव हित्वा प्रादे भार्षिते सङ्गे रक्षोभ्यो विरक्षे एते लिङ्गे अजरे जातवेदस्तिग्रहे दे ब्रह्म संसिते पाभ्याम् दुर्गार्द्रभिदासम् तम् किमेदिनम् प्रत्यण्डमर्जिताः जातवेदोऽलक्ष्व अग्नियष्टाम् द्विषेधति शुक्लोः शीलवर्त्यः श्रुजः पावैभ्यः इन्द्रातोपातपातम् लक्ष उद्यतम् ज्ञयतम् ीतमचितोऽन्योषम् हतमनुदेताम् विशीलवर्त्रिणः इन्द्राः सोमा समगजम् समभ्या आगन्तपुरुजयस्तु सौरग्मा ब्रह्मद्विषे कव्यादेघोरक्षते द्वेषो दत्तमालायम् की भीतिरे इन्द्राः सोमा दुष्कृतो गौरे अन्तरनारम्भणे तमाचप्रविद्यताम् ैषाम् मुनले कश्चनोगरस्तद्भवस्तु सह सेवन्युवत्सवाः इन्द्राः सोमावर्तयतम् दिवोपथम् संवृथिव्यागजम् साजतम् वृत्तक्षतम् वर्याक्षो वावधानम् निजोर्वरथ इन्द्राः सोमावर्तयतम् दिवस्पर्यग्निद्रे हृवमस्परम् कपुर्वदेभिरजनेभ्यन्त्रिणो निवसाध्यम् यन्तो निःस्परम् इन्द्रातो वा परीवाम्भूतविश्वत इयम् मतिः कक्ष्याश्मे वायिना याम् वाम् होत्रा परिशिणामि मेधने वा ब्रह्माणि नृपदीरिवजिम्मदम् परे स्म तु जगद्भिरेवैर्हतम् दोरो भङ्गुरावदः इन्द्रा सुवा सुखम् भोद्यो वा कदाचिदभिदाच दिद्रुः यो वाके न वरसादरम् तमभितष्टे अमृते सर्वजोभिः आवयिव काचिदासङ्ग्रीहीतासन्न स्वासत इन्द्रवत्ता देवा कथम् संविहरम् तदेव भद्रम् दोषणम् देश्वभिः अह एवा तान् प्रददातुमस्ते यो नारसं नित्प्स्यति वित्तोऽग्ने अश्वानाम् गवायव्यश्वस्ते नस्ते रक्षने दुर्जयनाम् तन् च विश्व पृथिवीरघो अस्तु विश्वाः प्रदेशश्च त्रयशो अस्य देवायो मादिवामित्सदियश्च रक्तम् स्वविज्ञानम् चितुे जनाय सत्यासत्यस्प्रधाने प्रयो यत्सत्यम् यतद्रीरस्तमित्सो महोदधि्यावत् हीनो दिनक्षत्रियम् विसूजालयन्तोहञ्जा सद्मदन्तमभावन्द्रस्य प्रसीतौ शजाते गजीवाहमदेतदेवोऽस्मि मोघम् वा देवाग्ने दे किमस्मभ्यम् जादवे दोहे हे द्रोघवाचस्ते दो निरथम् स चन्द्र अद्यामोरे यातु धानो अस्मि यदि वायुस्तदपूरोषस्य अथा स वीरैर्दी राजो वा मोघम् यातु धानेत्याह यो माजाः तुम् यातु धानेत्याह यो माह रक्षाश्रुचेरस्मेत्याह इन्द्रस्तम्भम् तहदावधेन विश्वस्य जन्तोरधमस्पादेष्ट प्रयाजिकादिखङ्गले नक्तमवध्रुवस्तन्वा आङ्गूरमानम् तमवणोग्रम् तक्षत उपदे विलक्ष्यर्थम् मरुतो वीक्षे क्षतग्रवायत रक्षतः सम्पि नश्च न पयोये भूत्वा पतयन्ति रक्तधर्येवारिफो दधीरे देवे अध्वरे प्राक्तस्मागवन् संशीला हि प्राक्तो अपाक्तो अधरादुधक्तोहि रक्षतः पर्वतेन एत उत्तेवादयन्ति स्वयाः तव इन्द्रम् त्यप्सन्ति चिप्सबोदाभ्याम् शिशिहीते शक्रः पिशूनेभ्यो मधम् मूनम् सृजलशरम् इन्दो यातो नाम भवत्वसला अभीतो शक्रप्रणतो यथावनम् पात्रेन्दम् सदलेः यदि रक्षताः पुरोगयातुम् सुलोगयाम् विश्वया तु मुत सुवर्णया तु मुदग्रयातम् दृढदेव प्रवृणाक्षरिन्द्रा बाणो रक्षोः अभिनव्या तु नाम तपोक्षन्तुमि सदा पृथिवीरार्थीवात्मात्मम् भरसोऽन्तरिक्षम् दिव्यात्मात्मस्मार इन्द्रजीपवान्तम् यादुधानमुतश्रियम् माययाशासदानाम् विग्रेहेवासो मोहदेवारुदम् तु मादयदृढम् सौर्यमुच्छम् प्रदेचक्ष्व विचक्ष्वेन्द्रश्च तोमजाग्रतम् रक्षोभ्यो वदवश्च तव शिम् जातमभ्याः अयम् प्रतिसरो वयर्वीरो वीराजपध्यते वीर्ये वा सूरवीरप्रबाणस्वमङ्गलाः अयम् मणिस्थपत्नः सुवीरः स स्वाम् आदिसहमानमुग्रहः प्रत्यक्कृत्यादोषयम् वेतिवीरः अनेनेन्द्रो मणिनाः वृत्रमाहम् अनेनासून् पराभावयम् मनीषे अनेना च द्यावा पृथिवे उभे अनेनाज प्रतिशश्च अयम् साक्यो मणिःप्रतिपर्तप्रतिसरः ओजस्वान् विवृथो वशीको अस्मान् पातु सर्वदा प्रलङ्गिराः तनुगोमाः बृहस्पतिः सभिता निन्दाः ते मे देवाः पुरोहिताः प्रतीदे कृत्या प्रतिफलैरजन्तो अन्तर्द्याः पृथिवी उदाहरुसरोजम् ते मे देवाः पुरोहिता प्रतीदे कृतिफलैरजन्तो ये श्राक्यम् मणिञ्जना बर्माणि कम्बदे शौर्यवदिव माणस्य विकृत्या बाधदे वहे श्राक्येन मणिनर्षेणेव मणिषिणा अजैषम् सर्वा हृतनाविवृतोहन्विरक्षता व्याकृत्याङ्ग त्या स्वयङ्कृतायावो चान्यभितावृता उभये स्थापरायम् द्वरावतो नवनिम् नाव्यादि अस्मै मणिम् मर्मभद्रम् देवायन्द्रो विष्णस्य पिता रुद्रो अग्निः प्रजावाजः परमेष्ठीविराट वैश्वानरडे उत्तमोऽषधीनामनवाञ्जगतामिव व्याघ्रस्वपदामिव यच्छामाय निष्पाशरमन् पीताम् स याघ्रो भवत्यसो वृषा असोः सपत्रकर्ष नैवम् मणिम् दैनम् घन्त्यक्षरसोदकम् धर्वानवत्या सर्वादिशो विराजो विभक्तेमम् मणिम् कर्शवस्तावसजत कर्षवस्तासमेरयत् अवीमतेन्द्रमानुषविभ्रत् संश्लेषिणेदयत् मणिम् शास्त्रीरयम् वर्म देवाकण् यस्ताकृत्याभिर्यस्तादीक्षाभिर्यज्ञेर यस्वादिखा हंसति प्रत्यक्त्वमिन्दतम् जयशर्मणा अयविन्मये प्रदेशमतरोस्वान् सञ्जरोमणिः प्रजान्धनम् च रक्षतुपरिमाणः स्वमङ्गलाः अथ पत्रम् नम् न वक्ता इन्द्रादपत्रम् नः पश्चाद् ब्रह्म मेन्द्रिया पृथिवीर ममा सूर्याः ब्रह्म महिन्द्रश्चाग्निश्चादधातुरे महीन्द्राज्ञम् ब्रह्म बहुलयम् विश्वे देवानादिविध्यन्ति सर्वे तन्मे तन्वम् प्रायताम् सर्वतो बृहदा युष्माम् जनदश्चर्यथाधारि आमाहारक्षद्रेव मणिर्म्याः इष्टमम् एखिनाभिसंविषद्वम् रोपानम् त्रिवरोऽमो जाधे अस्मिन्विन्द्रो निदधातु निर्मभिमन्देहे वासो अभिसंविषद्भम् दीर्घायुक्त्वाय शतजाहारदायायुष्माञ्जलदश्चर्यथा सप्तिधाविषाम्बरवृत्रहाविमधो मही इन्द्रोः बद्धातु देवणिञ्जी जीवा अवराजितमवाभयङ्करो वृषा सत्वाः रक्षतु सर्वतो दिवानक्रम् च विश्वताः जौरे मातोम् अवाज राजायाः पतिवेदारौ दुर्नमातत्रायदुतवत्सवाः पलालानुबलालो सर्गम् कोकम् मलिम् मृतम् वरीयागम् आश्रयम् भव्रिवा सर्वक्षग्रीवम् प्रवेदिनम् वा संवृतो मापसर्वगुरो मा सर्वोऽन्तरा कस्मै भेषु दुर्नामजादरणम् दुर्णामा च सुरामा स्वृतमिच्छतः आरायाणपरहम्वस्त्रैणमिच्छता यः कृष्णे शो नरायामुष्काभ्याम्भम् सदोपरहंवदे अनुनिघ्रम् वृषन्तम् क्रव्याजमुतरेहम् अरायाहन्त्रिष्णिनोः वजःलिङ्गो अनीर यस्मास्त्वम् मे निमज्यते प्रागा भूत्वा विदेव भजस्ताम् सहतामिदः केवलो माम् स्त्रिरे निः यस्वा स्वमङ्गम् सलदिजस्तादिजाग्रही छायामेव प्रदाम् तोर्यः परिक्रामम् नीनधर यः कृणोति मृतवत्सामरतोकामिमां स्त्रियम् त्वम् नाशया स्याः कमलवञ्झिव एषाः परिणत्यम् दिसायम् गर्दभराधिराः मुहोरादेतदुः ककुभाः करुमा स्त्रिमाः राणोडेत्तम् गन्धैर्विशोचेरान्विराशया ये कुकुन्धा मुहोरभाकृत्येन्दोषा विभ्रति क्लीबादेव प्रणग्नन्तो वने कुर्वते घोषम् तानि तो नाशावधि ये सो यन्नति तिक्षन्त आतपन्तमम् दिवः परायान्वस्तवासिनो दुर्गन्धीवास्यान्मकान्नाशयामति च आत्मानमतिमात्रमंश आसा च विभ्राति स्त्रीणाम् श्रोणिप्रतो निरीन्द्ररक्षाहंसिनाशया देवोरे वद्भोयम् हस्ते शृङ्गाणि बिभ्रादः आपाचेष्टा प्रहसिनस्तम्बे ये कुर्वते ज्योतिस्ताविदो नाशयामसि येषाम् पश्चात्पदायिपुरःपा कराजाश्च कधोमजाय च मट्मटाः कुम्भमुष्कायाशवाः पाणस्या ब्रह्मणस्पदे प्रतिबोधेन नाशया पर्यस्ताक्षाप्रचङ्कषास्त्रीणाः सन्तु पुण्डगाः अवभेषज पादयमाम् संहत्सर्त्यपादिस्वपादम् स्त्रियम् उद्धर्षिणम् मरीकेजम् जम्भयम् तम् मरीशम् उभयम् दुदुम्बलम् तुन्दे लम् पदा प्रविधे वार्ष्णा साले गौरेव स्पन्दना यस्ते गर्भम् प्रतिविषातम् वािङ्गस्तमुग्रहम् वार्णवदोहृदजाविधवम् हे अम्नो जातान् मारयम् गृहोदेकानुशरते स्त्रीहाकान् विङ्गोऽगम् गर्वान् मातोः अभ्रमी वाजत परिसृष्टम् धारयतु जिरम् आवबाधित गर्भन्तमुग्रौ रक्षताम्भ्रेणजो निः विभार्यौ पवीणात्रम् गल्लाच्छायकासर्गात् प्रजाय विपत्तेः ताभिङ्गः परेलाः व्याक्षात्पञ्च बादादनम् गुरेः वृन्दादभिप्रसर्वादः परीपाभिमरीवृतात् परी यामम् मां समलन्ति पौरोषेयम् चिः दर्भाम् खादम् ोर्यात्मरिसर्वम् त्युते वश्वसूरादधि वयस्तदेशाम् लिङ्गश्च हृदये धीरिविध्यताम् लिङ्गक्षजाले मानम् माग्माम् संश्रियम् क्रह्म आण्मादो गर्वान्मादवन्बाधश्वेतः कीर्बेधिराः अप्रजास्त्वम् मात्रवत्समाद्रोदमघमाह वृक्षादेव स्वयम् कर्त्वा प्रियम् च तत् याभ्रवोजाश्च शुक्रारोहे नीरुतवृश्नायः अधिके पृष्टावोष हे सर्वाः अर्थापदापे रायन्तामम् पुरुषम् यक्ष्मा देवेऽधि तादी यासाम् चोष्टिकापृथिवीपादासवक्रमोलम् मेरुधाम् आपो अग्रम् दिव्यापोषधयः आस्ते लक्ष्मणमेधस्या आगङ्गागङ्गादीरशन् प्रतृणीस्तम्बीकगङ्गात्मकलम् महदे नो च धीरावरदामि अंशुमरे काण्डिरुजाविषाः काह्वयाः विजय वीरथो महेश्वरे विधाः पौरुषजीवनेः यत् दत्सहस्रमानाधीर्यान्यच्च गोबलम् तेनैवमस्मान्यक्स्मानुभ्रोषम् मुञ्चदौषधीरसोः कृणोभि भेषजम् दीबलान्न कारिषाञ्जीहीवन्ती ओषधीव अरुन्धरीमुन्नयन्ते पुष्पाम् मधुमधीमिषभूवेस्माहारिष्टदादरे इहायम् त्वप्रजये ततो मेधिरेर्वच सोमवा यथेवम् पाराहावसिपुरोषम् ललिता दधि अग्नेर्घातो अपारम् गर्भोजारोहम् त्रिपुरम् नवाः द्रुवासहस्राम्निर्भेणस्तन्ताभेताः अवतोदगात्मा नवोषधरः दोषम् तु दुरितम् ते मुन्मुञ्चेः विवरुण उग्राया वेशतोषीः अहो बलाधनाशरे कृत्यागोणेश्वजास्ता इहायम् पोषधीः अपर्धीतास्तैः यशेर्मे रसो याभेष्टोता प्रायम् तामस्मिङ्ग्रामे दा मधो मन्मोलम् मधो मदग्रमाधाम् मधो मन्मध्यम् मेरुधाहम् बभूव मधोमत्पर्णम् मधोवत्पुष्पवासाम् मधोः सम्भक्तामृतस्य भक्तो घृतवङ्गम् दुहृदाम् गोपुरोगमम् यादे प्रेज्यामध्योः तावा सहस्रपर्ण्योः वृत्योर्मुञ्चन्तम् हरः दूरमस्मर कायमाणोऽभिषस्तिपा अमीवाः सर्वा रक्षाम् शपहन्तोरमस्वरे चिंहस्येवष्टनथोः संवीजन्ते द्वीज्यः गवाम्यक्ष्मपुरोणाम् व्यद्भिरदेवक्तो नाव्यायेतुः श्रोत्या मम चा वोटधनोग्नेरवये स्वान भूमिम् सन्तीरे प्रजासाम्राजा वनस्पतिः यारोहन्त्याङ्किरी पर्वतेरुसवेरोजा कालः पयस्पति शिवा वोटे सन्त संहृदे ग्राश्चाहम् वेद वीरधोजाश्च अज्ञाः दाजारीवश्च याजासु विद्मरसंहृतम् सर्वाः समग्रावोषधे बोधम् तु वच सोम यथैवम् पारयामसि कुरोषम् दुधिताधि अश्वत्सर्भोदीरुधाम् सोमो राजामृतम् धरि व्रीहिर्यवश्च मे रजवधिमस्पुग्रामवर्ज उज्जीहीर्धे स्नायन्द्रभिम् द्योषधि गिराः कृष्णिमाता पर्जन्यो रेदी तस्यामृतस्येवम् वरम् पुरुषम् पायजावधि अधोः कृणो निभेषुलोदवेदी सर्वागम् धर्वाया वितस्तास्वावधे हुरे ो वर्णाङ्गर्निव्याया रघतोः विदुः वयाम् द्रिहंसाया विलुर्जाश्च सर्वे वदत्रिणः मृगाया विलुरोडधेस्तास्मा अवासे हुवे यावती दीना रामोदधीराङ्गाः प्राश्नन्त्यघ्या यावी दीना रामयाः तावतेस्त्वभ्यवोषधेः सर्वा यच्छन्त्वा वृताः यावदेव मनुष्याः भेदजम् भिडयोः विदो तावदेव विश्वभेदी राभराभित्वामभि पुष्पावे प्रतोदे स्फरिणीरपलामुदा सम्मादरवदुलामस्माहारिष्टनाः दरे उद्वाहारिणम् पञ्चशलादारुदा अतो यमस्य वर्णीठा विश्वस्मादेव निर्मिषाद इन्द्रोन्धुपन्थे क्रूरपुरन्द्रथाहनाभेनामित्राणाम् सहस्रशः पूतिरञ्जरो पद्मारिपोतिर्सेनाम् क्रमात्मा धूमपग्निम् पाद्रश्चामित्रा हृत्वादताम् भरम् अबो नेणेः कालामोम् खादिरादिनम् कालभ्रङ्गभज्यन्ताम् घण्टे रान्वथकोवधैः पर्षामोन्वर्पः क्रीडो ग्रन्देरान्वथकोवधैः क्षिप्रम् शरणेव भजन्ताम् बृहज्जालेन सन्दीताः अन्तरिक्षञ्जालयवारेज्जालदण्डादिशोभैः तेन विधायनस्यो नाम् शक्रस्य नाम वाहवपदे बृहद्भिजालम् बृहदः शक्रस्य वाजैः वद तेन शत्रो न विदर्वान्यब्जानेकतवच्च बृहत्ते जालम् बृहदयन्द्रजोरः श्वार्घस्य तेन शतम् सहस्रमयतम् यद्भुतम् जढान शक्तो लोपभिधाने सेनाया अयम् लोको जालय माने चक्रस्य महतो महार तेनाहमिन्दजालेनामोस्तमासाभिदधा विसर्वार सेनिरुग्राव्यम् शिराश्चा नववाचिश्च मोहश्च तैनमोनभिजधामि सर्वा मृत्यमेवोन्प्रयच्छामि मृत्यवादे अनीषा मृत्योर्येण खलादुभास्तेभ्य एनान् प्रतीरजामि मग्धा नयदामोन्मृत्यदोदायदोराोऽम्भ परः सहस्राण्यन्ताम् एनान्मध्यम् भवस्य साध्यायेकम् जातरङ्गमस्योदयसा रुद्रा एकम् वसर्वये कर्मादिष्टीरेक उच्च विश्वे देवा उपविष्टानुज्जन्तो जन्तोजयथा मध्ये लघ्नन्तो जन्तसेनामङ्गीरसो महे परस्पतीर्वानस्वत्यालोचीकृतये स्वादिष्टाभियथा सेनाम् हे गन्धर्वात्सरः सर्वान् देवान् पुण्यजनान् पिप्ले दृष्टा न्यस्तादृष्टा विजरालेण इममुक्ता मृत्युपाचारक्रम्यमुच्चरे अमुष्याहन्तुरेणायाम् कोटम् सहस्र धर्मः समिद्धो अग्निरायम् होमः सहस्रः भवश्च वृष्टि बाहुश्च सर्वरेण होम् भरतम् प्रत्योरागापद्यन्ताम् क्षुतम् सेलिम् वधम् भयम् इन्द्रश्चाक्षुजालाद्याम् सर्वरेण होम् भरतम् राह यदा तत्र तदा मित्रामुक्तावदब्रह्मणा बृहस्पतिप्रतानाम् मावीणा मोजदर्शना अवापद्यन्तामेषा मारुधानि मासकम्प्रतिभाविषम् अरेषाम् बहुविभ्यतामिषोघ्नन्तमर्माणि सङ्क्रहो शामे ना्यावापृथिवीनान्तरिक्षम् महदेवता मा ज्ञातारम् मा प्रतिष्ठाम् व्येदन्तमिथो विज्ञानापन्तवृत्याम् त्रिदक्षरसो देवरथस्यन्तरिक्षबुद्ध्यै यावापृथिवेरक्षतीरथमो भी सर्वम् धन्यः किम् कलावात्पर्यम् संवत्सरोरथपरिवत्सरोरथो वस्थो विराडीराञ्छीरतमुखम् इन्द्रः संज्ञष्टाश्चन्द्रमाशिः इतो चायतो विचार सञ्जायज स्वाहा इमे जायन्तमरामी जयन्ताम् स्वाहेभ्यो दुदामेभ्यः मेलो यामो नभ्यवशरोमि